श्रीमद्भागवत् महापुराणं दशमस्कन्ध अथ षष्ठोऽध्यायः पूतना उद्धार शेषोकुवाच नन्द पथिव चिरै न मृषेति विचिन्तयन् हरिं जगाम शरणम् उत्पाता गमशङ्कितः कंसेन प्रहिता घोरा पूतना बालघातिरी सुशंसुतार <Sess> निघ्नन्ते परं पुरग्रामव्रजादिषु न यत्र रक्षो रक्षोघ्नानि स्वकर्मसु कुर्वन्ति सात्मतां भरत यातु धान्यस्ति तत्र हि साखे चर्ये कदोपेत्य पूजनानन्दगोकुलं योषित्वा मायात्मानं प्राविशन् तां केशबन्धं व्यतिशक्तमल्लिकां बृहनीतम्बस्तनकृथमध्यमां सुवाससंकम्पितकर्णभूषणन्ति सोल्लसत्कुन्तलमण्डितान् ताननां वल्गोस्मितापाङ्गविसर्गवीक्षितये मनोहरन्तीं वनितां रजौ कशाम् अमंसतां भोजकरेण रूपिणीं गोप्य श्रियं द्रष्टुमिवागतां पतिं बालग्रहस्तत्र विचिन्वते शुशून यदीक्षयानन्दगृहे सदं सदन्तकं बालं प्रतीक्षन्न निजोरुतेजसं ददर्शतल्पेऽग्निविवाहितं भसे बलकमारिकाग्रहं चराचरात्मा सनिवीलिते क्षणः अनन्तमारोपयदकं दङ्कमन्तकं यथोरकं सुप्तमबुद्धिरज्जुधे तां तक्ष्णचितामतिवामचेष्टितां वृक्षान्तराकोशपरिक्षदासिन्धिवत् वरस्त्रियं तत्प्रभया च दुन्धर्षिते निरीक्षमाणे जननी शतिष्ठताम् तस्मिन् सनं दुर्जरवीर्यमुल्बम् घेराङ्कमादाय सिसोऽर्द तावत् गाढम् कराभ्यां भगवान् प्रपीड्य तत् समं रोष समन्वितोऽपि सा मुञ्च निष्पीड्यमानाखिलजीवमर्मी नृवेत्यनेत्रे चरणौ भुजो मुहुः प्रस्मिन्न गात्रा क्षिपतिरुरोदः तस्यासनेनातिगभीरहंसार्महीयोश्चालसंसङ्ग्रहां रसाधिशश्च प्रतिनेतिरे जनाः पेतुच्छितौ वज्रनिपातशङ्कयाम् निसाचरेत्थं व्यसितस्तनाभ्यसु व्यादाय केशांश्चरणो भुजावपि प्रसार्यगोष्ठी निजरूपमास्थिता भद्राहतो वृत्तैवापतनृपतमानोऽपि तद्देहस्थिगव्योऽत्यन्तरद्रुमान् चूर्णयामास राजेन्द्रमहदासे तदद्भुतम् एषा मात्रो गजस्रावस्यं गिरिकन्दरनाशिकम् गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमुसजम् अन्धकूपभिराक्षं पुलिनारोहभीषणं बद्धसेतो भुजोर्वङ्घ्री शून्यतो यह्रदोदरम् सन्तत्र सुस्म तद्वीक्ष्य गोपा गोप्यः कलेवरम् पूर्वं तु तन्निस्वनितं भिन्नहृत्कर्णमस्तकाः बालं च तस्या उरसी क्रीडन्तम् उकुतो भयं गोप्यस्तूर्णं शमभ्येत्यज गृहुर्जातसम्भ्रमाः यशोदारोहिणीभ्यां तासमं बालस्य सर्वतः रक्षाम् विदधिरे सम्यग् गोपोक्ष भ्रमणादिभिः गोमूत्रेण स्नापयित्वा पुनर्गोरजसंसार्भकं रक्षां चकृश्च सकृता द्वादशाङ्गेषु नामभि